अस्तु राधा भगिनी भवती प्रार्थनया आरम्भम् करोति वा नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पार्थो वत्स सुतीर्भोक्ता दुग्धम् महत। महत् शान्ताकारम् भुजगशयनम् सुरेशं, सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् धन्यवादाः सर्वेषां स्वागतम् अस्माकं वर्गे अस्माकम् अद्यदिनस्य विषयः अस्ति षष्ठीविभक्ति षष्ठीविभक्ति गतसप्ताहे वयं तत्र का परिदेवना समापितवन्तः अद्यदिनस्य विषयः षष्ठीविभक्ति प्रथमतः तु गीता श्लोकान् आधारेण वयं किञ्चित् पठामः अनन्तरं व्याकरण अंशा अनन्तरं कथा एव कुर्मः तत् गीताश्लोके अद्यदिनस्य गीताश्लोकः एकनिमिषम् शेर् करोमि गीताश्लोके अपि तत्र विभक्ति उपयुज्य कथं रचना भवितुमर्हति तत् वयं पश्यामः अद्यदिनस्य श्लोकः दृश्यते वा क्रीन् दृश्यते भगिनी नमस्ते भगिनी अद्यदिनस्य विषयः अस्ति अस्माकं षष्टिविभक्ति इति परन्तु षष्टिविभक्ति अपि अस्माकं नियमः कः गीताश्लोकान् पठनं गीताश्लोकान् आधारीकृत्य तत्र व्याकरण अंश अनन्तरं कथा तथैव अद्यदिने अपि वयं अस्तु अस्तु अन्य अन्य के अन्य के जनाः अस्ति जयन्ति भगिनी इतोपि पश्यामि बेनि पश्यामि कापि न आगतवती गीताबेनी अस्ति राधाबेनी ऐ मीन् राधाबेनी वीणाबेन भारत् महोदय अहं पञ्चजनाः एव सन्ति भगिनि अस्तु अस्तु अस्तु आरम्भं कुर्मः तत्र श्लोकः प्रथमः श्लोकः पञ्चादशश्लोकः तत् प्रथमे अध्याये प्रथमे अध्याये प्रथम अध्यायस्य नाम अर्जुनविषादयोगः अर्जुनविषादयोगो नाम प्रथमोऽध्यायः तत्र पञ्चदश श्लोकक्रमाङ्कपञ्चदश हा, श्लोक हा अगस्ट् मोदे भवान् पठति वा प्रथमं श्लोकम् भगिनी नमस्कारः पञ्चजन्यं हृषिकेश देवदत्तं घनजयः पौ पौण्ड्रम् दौ महा महाशङ्खं भीमकर्म कर्म भृकोदरः पांचल्यम ऋषी केशो दौंड्र दौ महाशंख भीमकर्मा वृकोदर अश्य प्रथम अध्याय अत्र अर्जुन विषाद तथम श्लोक प्रथम अध्याय तथम श्लोक कृतराष्ट्र अस्थराष्ट्र वदृतराष्रृछति हे सञ्जय किम् अकुर्वत मामकाः पाण्डवाश्चैव किम् अकुर्वत सञ्जय ह मम पुत्राः मम पुत्राः पण्डु पाण्डुपुत्राः किम् अकुर्वत् इति सः पृच्छति ह सः तु दृष्टिहीनः आसीत् अतः सह सञ्जयम् पृच्छति अनन्तरम् द्वितीयश्लोकतः सञ्जयः वर्णनम् करोति प्रथमे अध्याये प्रथमं श्लोकम् अत्र धृतराष्ट्रः वदति अनन्तरं सञ्जयुवाच एवमारम्भं भवति सञ्जयः तत्र धृतराष्ट्रं निवेदयति तत्र प्रथमतः तु दुर्योधनः दुर्योधन आचार्यमुपसङ्गम्य किं वदति द्रोणाचार्यं समीपं गत्वा दुर्योधनः किं वदति ये वीराः आसन् तेषाम् द वीरा तं नाम दुर्योधन कथम था तो वदी अन द्वादे श्लोक द्वादश श्लोक द्वादशक्रकश्लोक त्र कुवृेन भीष्मितामहन भीष्म भीष्मितामहनुक्ते भीष्मेन भीष्मपितामहेन अहं कथं वदामि कुरुवृद्धेण तृतीया विभक्ति भीष्मपितामहेन अपि तृतीया विभक्ति इत्युक्ते कुरुवृद्धः इति भीष्मपितामहस्य विशेषणपदम् कुरुवृद्धेन भीष्मपितामहेन तत्र शङ्खनादं कृतं दृश्यते शङ्खनानं न शङ्खं दध्मौ इति अस्ति द्वादशे श्लोके सङ्खन् दध्मौ प्रतापवान् दध्मौ इति तत्र दध्मौ धमा इति धातु धमा इति धातु ध्मा इति शब्दावनीसंयोगयोः इति अर्थः ध्मा इति धातु दध्मौ इति लिट्लकाररूपं लिट् लकार परोक्ष परोक्षभूत्का यत् वयं न दृष्टवन्तः वर्तमाने ये ओपि न, न तत जना जीविता दृष्ट तत्क्ष भूत लिट् लिट्लकार तत्मा धा तर लट्ले वर्तमान काले धमती धमतिपति ध्मा धमती धमती, तक सूत्रमस्त पाघ्रा ध्मा स्थापन कि ध्मा धम् इति आदेशः हा अतः धमति इति रूपं परन्तु परोक्षभूत्काले शङ्खं शङ्खं दद्मौ प्रतापवान् इति प्रतापवान् इत्युक्ते पुनः एकवारं पितामहस्य विशेषणपदं प्रतापवान् प्रतापयुक्त वान, प्रताप वान वान वान् इत्युक्ते युक्त वानमान, बुद्धिमान, बुद्धिमान् गुणवान् धनवान् धनसहित गुणसहित बुद्धिसहित मान् वा मान् तत्र मतुप्ति प्रत्ययः अस्ति हा प्रतापवान् प्रताप, प्रताप इति गुणस्य युक्तः इति सः विश्वपितामह सः शङ्खन् दद्मौ इति द्वादशे श्लोके सः उच्चैः शङ्खन् दद्मौ विष्मपितामह किमर्थं दुर्योधनस्य मनसि हर्षभावना जननेत् इति उद्देश मनसि आगतः अतः सः उच्चैः शङ्खं ददमौ अनन्तरम् अन्येषां शङ्खानां नादं हा शङ्खानां धमानम् इति धमानम् इति अहं वदामि इत्युक्ते धमानं धमा धातोः ल्युट् प्रत्ययः यदा गम् वदामः तद् गमनं पठ् वदामः चेत् पठनं तत्र धमा इति धातु तस्य धमानम् इति रूपम् श्लोकक्रमांक पंचरश अ शंखा ध्मा अगछति श्लोक्रंक पंचदश पश्यो पांचन्षी केशो दौंड्रहाशंख महाशंखर्मा वृकोदर अं सूचय श्लोक विणा भगिनी भवती प्रयत्नं करोति वा किं सूचयति एषः श्लोकः <coughs> विविधानि शङ्खानि नामानि वदति भगिनी सत्यं सत्यम् सत्यम उत्तमं कस्य शङ्ख कस्य शङ्खस्य नाम कः किं नाम इति कस्य शङ्खस्य किं नाम श्लोकं दृष्ट्वा ऊहमानं कर्तुं शक्नोति वा भवती ऋषिकेशस्य <coughs> शङ्खः पाञ्चजन्यम् उत्तमं वृकोदरः भीमस्य Uh, पाञ्चजन्यम् एव वा दे uh, देवदत्तं न uh, धनञ्जयः दत्त्वा धनञ्जयः इत्युक्ते कः अर्जुनः अर्जुनस्य धनन् देवदत्त इति धनञ्जयस्य शङ्खस्य नाम देवदत्त इत्येव दत्तं अनन्तरं भीम भीमस्य भीमस्य वृकोदरः वृकोदर इति पौण्ड्रन् पौण्ड्र पौण्ड्र इति शङ्खस्य नाम अस्ति वृकोदरः इति पश्यन्तु अत्र कथम् ओहमानं करणीयम् इति पश्यन्तु वृकोदरः इति विभक्ति का तत्र का विभक्ति दृश्यते भगिनी प्रथमाविभक्ति तत्र धा इति यत् यदा अहम् तत्र धमति इति दद्मौ इति यदा क्रिया भवति शङ्खस्य नाम द्वितीया विभक्ति प्रयुज्य एव आगच्छति किं करोमि धमति किं पौण्ड्रम् इति शङ्खं पाञ्चजन्यम् इति शङ्खं देवदत्तम् इति शङ्खं सर्वेषु स्थलेषु तत्र द्वितीया विभक्ति दृश्यते खलु रामः रामौ रामः रामः रामो रामः प्रथमा रामं रामौ रामान् रामम् पाञ्चजन्यं देवदत्तं पौण्ड्रम् तत्र किं दृश्यते द्वितीया विभक्ति द्वितीया इति प्रथमान्तपदं तत् न भवेत् यतो हि तत् प्रथमान्तपदं भीमकर्मा एतस्य विशेषणपदं भीमः कीदृशः वृकोदरः वृकोदरः भीमः इति दत्तमस्ति वृक् इत्युक्ते किं कः वृक इत्युक्ते न जानामि भगिनि कोऽपि अन्य कोऽपि साहाय्यं करोति वा वृक इत्युक्ते लैक् uh, like, uh, तादृशम् एक प्राणीबेणी तत्र जाकाल् शार्ट् अस्ति वृकः वृक वृकस्य वृकस्य एव उदरः तत्र वृकस्य तत्र एकमस्ति सः भीम एतस्य तस्य देहः अपि विशाल एव तथैव तस्य आहारः इति वदामः चेत् अस्ति खलु तथैव अस्ति यावत् सः खादति तावत् तस्य उदरं ऐ मीन् परिवर्तनं न भवति इत्युक्ते तस्य सत्यम् उदरस्य पाचनशक्तिः तादृशी विकसिता आसीत् तादृशी विकसिता चेत् अतः सः बलबलवान् दुर। आसीत् खलु अतः वृकोत्स उदरः वृक उदरः उदरः इत्युक्ते डैजेस्टिव् टेक् इति वदामः तत् उदरः स्टमक् वा स्टमक् आम् उदर इत्युक्ते स्टमक् परन्तु तत्र वृकोदरः इति संज्ञया तत्र तस्य एव तावत् एव तथैव एव तस्य सर्वं वर्तते एवं वृकः एव इति अस्ति उदरः इत्युक्ते स्टमक् इति वक्तुं शक्नुमः तत्तु योग्यं हा तत् पौण्ड्रं महाशङ्खम् इत्युक्ते पौण्ड्रम् इति शङ्खस्य नाम तस्य विशेषणं पदं महाशङ्खं महाशङ्खम् इति महान् इति महान् शङ्खं तत् महाशङ्खं पौण्ड्रमिति इदानीं तथैव राधाभगिनी उक्तवती वीणाभगिनी उक्तवती ऋषिकेशस्य शङ्खस्य नाम पाञ्चजन्य इदानीं वदति वा पुनः एकवारं श्लोकं दृष्ट्वा भगिनी पाञ्चजन्यं हृष्यकेशस्य शङ्खः भीमस्य पौण्ड्रः पौण्ड्रः सत्यं धनञ्जयस्य देवदत्तं देवदत्तः इति अस्ति खलु दद्मौ इति प्रथमपुरुष एकवचनान्तरूपं दध्मौ इति प्रथमपुरुष एकवचनान्तरूपं लिट्लकारे दद्मौ हा तत्र दध्मौ दध्मतुः दध्मुः इति भवति एकवचन बहु द्विवचन बहुवचन हा एवं च इदानीम् एषः एव अस्माकं विषये यथा भगिनी उक्तवती ऋषिकेशस्य शङ्खस्य नाम पाञ्चजन्य तथैव तत् तथ ऋषिकेशस्य इत्युक्ते विभक्ति का धनञ्जयस्य षष्ठी विभक्ति तत् एषः अस्माकं विषयः इदानीं धनञ्जयस्य शङ्खस्य नाम देवदत्त भीमस्य शङ्खस्य नाम पौण्ड्र एवम् अस्तु द्वितीयम् श्लोकम् पश्यामः अत्र द्वितीयः श्लोकः जयन्तिभगिनी भवती पठति वा आम् अनन्त अनन्तविजयम् राजा कुन्तिपुत्रो युधिष्ठिरः नकुलस्सह देवश्च सुपोषमणिपुष्पकौ अनन्तम् अनन्तविजय विजयं कुन्तिपुत्रस्य अनन्तविजयम् इति शङ्कः नकुलसहादेवस्य शुकोशं मणिपुष्पकौ इति द्वयं नकुलः सहादेवः द्वयौ अतः सुकोषमणिपुष्पकौ इति द्वयं दत्तं शुकोषं मणिपुष्पकम् इति सत्यम् अनन्तविजयम् अनन्तविजयम् इति अनन्तविजयं तत्र पश्यन्ति शङ्खस्य नाम अनन्तविजयम् शङ्खस्य नाम नाम... इत्युक्ते शाश्वतजयः तत्र जय जयपराजय युद्धे तु भवति प्राप्नोति इति अनन्तविजयम् तत्र अर्थ अर्थपूर्णशब्दः अस्ति तत्र अनन्तविजय इति युधिष्ठिरस्य शङ्खस्य नाम युधिष्ठिरः कः कुन्तिपुत्रः तत्र कुन्तिपुत्र इति सन्धे दृष्ट्वा भवति परन्तु मूलतः तु कुन्तिपुत्रः इति अस्ति कुन्तिपत् कुन्तिपुत्रः युधिष्ठिरः प्रथमा विभक्ति राजा इति विशेषणपदं पुनः एकवारं युधिष्ठिरः कुन्तिपुत्रः राजा तस्य शङ्खस्य नाम अनन्तविजय नकुलः अस्ति सहदेवः अस्ति नकुलस्य शङ्खस्य नाम सुघोष सुघोष इति नाम्ना किं कः बोधः सुघोषयति क्षम्यमान् ध्वनि करोति इति सुघोषमणिपुष्पक मणिपुष्पक सहदेव सहदेवस्य शङ्खस्य नाम मणिपुष्पक अत्र पश्यन्तु मणिपुष्पकः इत्युक्ते तत्र कथं वयं वक्तुं शक्नुमः तत्र अलङ्कृतं कृतम् अलङ्कृतम् अलङ्काराणि विभूषणसहितशङ्क मणि अनन्तरं पुष्पकः तत् मणिपुष्पकः सहदेवस्य कृते अत्र सहदेवस्य किं वदामः आर्टिस्टिक् सेन्स् तत्र इति वदामः अतः तत्र मणिपुष्पकः नकुलस्य सुघोष हा एतत् सर्वं शक्तिविभक्ति उपयुज्य वयं विधानं कर्तुं शक्नुमः पृच्छन्तु अहं किम् द्वादशे श्लोके तत्र भैस्मपितामहः शङ्खं दध्मौ शङ्खं दध्मौ इति वदामि शङ्ख श्लोके किम शङ्खं दध्मौ प्रतापवान् इति हा उच्चैः शङ्खनादं तेन कृतम् इदानीम् अनन्तरं किं भवति अत्र पाञ्चजन्यं ऋषिकेशो देवदत्तं धनञ्जय तस्मात् प्राक् श्रीकृष्णः अर्जुनः अपि तत्र समागतौ पशन्तु अवधानं ददातु सर्वे श्रीकृष्ण अर्जुन बेहिनी तत्र अन्यतम किञ्चित् भवती ध्वनि किञ्चित् ब्रेक् भवति बेहिनी सम्यक् सन्ति आम। वा आम् आम् एकनिमिषम् पश्यामि इदानीम् इदानीं योग्यमस्ति वा इदानीमपि अस्ति इदानीमपि अस्ति भगिनि ओहो एकनिमिषं मध्ये मध्ये ब्रेक् भवति अन्तर्जालसमस्या इति मन्ये अस्तु भगिनि नैव वित् मी इट् इस् ओके भगिनि नो डिस्टर्बेन्स् अस्तु तत्र प्रथमतः तु अहं यथा अहम् उक्तवती द्वादशे श्लोके भीष्मपितामहः सः शङ्खं दद्मौ प्रतापवान् इति दत्तमस्ति हा उच्चैः शङ्खनादं सः कृतवान् आसीत् अनन्तरम् अनन्तरं तत्र अवधानेन सर्वे शृण्वतु श्रीकृष्ण अर्जुनः तत्र समागतौ श्रीकृष्णार्जुन तत्र समागतौ समागतौ इति अहं वदामि समागतौ इति वदामि इत्युक्ते अहं वक्तुम् इच्छामि श्रीकृष्णः समागतः अर्जुनः समागतः परन्तु श्रीकृष्ण अर्जुनः श्रीकृष्ण अर्जुन च तत्र समागतौ समागतौ येन कः बोधः भवति समागतौ द्वितीयविभक्ति योग्यं रामः रामौ रामः तत्र समागतः समागतौ अत्र श्लोक कथमस्ति ततः श्वेतैर्हैर्युक्ते महती स्यन्दने स्थितौ स्थितौ द्वयोः कृते अस्ति स्थितौ माधव पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु दिव्यौ शङ्खौ अत्रापि द्विवचनं दृश्यते खलु ह रामः रामौ देवः देवौ देवः रामः रामौ रामः स्थितौ दिव्यौ शङ्खौ प्रदध्मतु प्रदध्मतुः तत्र अपि द्विवचनान्तरूपं प्रथमा प्रथमपुरुष एकवचनान्तरूपं दध्मौ त्रिवचनार्थरूपं प्रदत्मतुः इति अस्ति एवम् इत्युक्ते तत्र महती स्यन्दने स्थितौ पाण्डवः पाण्डव इत्युक्ते धनञ्जयः अर्जुनः माधव माधव इत्युक्ते श्रीकृष्णः अस्तु इदानीं माधवशब्दस्य विषये कोऽपि जानाति कथं तत् माधव श्रीकृष्णः मा, वदतु महालक्ष्म्यस्य पति इति कारणेन माधवः मा महालक्ष्मी भवति अतः माधवः मा मा इति तु इदानीं विग्रहः कथं भवति मायाः पति मायाः कथं मायाः इति वदामि मालायाः आकारान्तश्रीलिङ्गिङ्ग एकवचनं न षष्ठी माया श्रीलिङ्गपदं षष्ठी आं चिन्तितवती मायां न मायाः मायाः इत्युक्ते षष्ठी सर्वत्र षष्ठी विभक्ति अस्माकम् अद्यदिनस्य विषय षष्ठी विभक्ति किं सूचयति सर्वत्र सम्बन्ध दर्शयति खलु अभी शंख से क्य शंख से शंख से नाम कि मैया पति क्य विभक्ति तथा अषिकेश धन ऋषिकेश ऋषिेश एषः ऋषीकेशः ऋषीकमित्युक्ते इन्द्रियाणि इन्द्रिया इन्द्रियाणां स्वामी इति इन्द्रियाणां स्वामी इति स ऋषिकेशः हा इदानीम् तौ ऋषिकेश धनञ्जय तौ द्वौ उत्साहवर्धनाय अलौकिकौ शङ्खौ धमातवन्तौ सर्वत्र अहं द्विवचनान्तरूपाणि योजितवती तौ अलौकिकौ शङ्खौ धमातवन्तौ ध प्रत्यान्तरूपं लिट्लकार दध्मतु तव तु प्रत्ययान्तरूपम् धमातवन्तौ ध्मातवान् एकवचन ध्मातवन्तौ द्विवचन एवं सर्वम् अस्ति अस्तु इदानीं पुस्तकं प्रति गच्छामः पुस्तकम् उद्घाटः एकक्लेशः एक मम क्ले एकः क्लेशः अस्ति प्रतमतु इति लिटुप्रयोगस्य बहुवचनं खलु न न तत् प्रथमौ दध्मतुः मतुः प्रतद् मतुः हा प्र इति उपसर्व दध्मतु अनन्तरं बहुवचनं किं भवति दध्मुः द धुः दध्मुः इति बहुवचनम् आम् एवमस्तु इति अतुः अतुः इति द्विवचनं खलु अतुः द्विवचने इति आम् अस्तु भ अतु इति द्विवचनम् अनन्तरं दध्मुः इति बहुवचनं तत्र कथं भवति दद्मौ दध्मतुः दध्मुः दध्माथ दध्मथुः दद्मः अनन्तरं पुनः एकवारं तत्र उत्तम् उत्तमपुरुष अपि दद्मौ एव आगच्छति भगिनि दध्मौ अनन्तरं दद् दद्मीमः इति अस्तु इदानीं पुस्तकं प्रति अस्माकं विषयः अद्यदिनस्य षष्ठिविभक्ति इति पश्यामः सर्वे गृहे अपि पठन्ति वा पुस्तकं पठन्ति वा सर्वे वदतु प्रभवः प्रभवः सर्वस्य प्रभवः प्रभवति हिमालयात् गङ्गा प्रभवति तत् सुते उत्पत्तिस्थानः अहं सर्वस्य प्रभवः अत्र इति भगवान् वदति परब्रह्मस्वरूप भगवान् श्रीकृष्णति अहं सर्वस्य प्रभो अस्तु आरम्भं कुर्मः राधा भगिनी भवती पठति वा आं भगिनी पश्यत् उच्चैः पठत च षष्टिः विभक्तिः कृष्णस्य भ्राता बलरामः गान्धार्याः पतिः धृदुराष्ट्रः अत्र किं भवति गान्धारी इति ईकारान्तशब्दौ ईकारान्त श्रीलिङ्गी नदी नदी एव नद्याः हा। सुभद्रायाः पुत्रः अभिमन्यु महाभारतस्य कर्ता व्यासः महाभारतस्य कर्ता इदानीं वदतु सुभद्रायाः पतिः कः सुभद्रायाः पतिः कृष्णः पतिः सोरि सुभद्रायाः पतिः अर्जुनः अर्जुनः सुभद्रायाः बन्धु बन्धुः कृष्णः कृष्णः तत्र इतोपि एकः बन्धुः आसीत् खलु बलरामः सम्यक् कृष्णः बलरामः सुभद्रा कुत्र दृश्यते कृष्ण बलरामसुभद्रारिस्सा वदतु जगन्नाथपुरी पुरी पुरी पूर्णवाक्ये पुर्न, पूर्णवाक्येन वदतु आ, पुरी जगन्नाथस्य मन्दिरे बलरामसुभद्रा कृष्णस्य कृष्णा कृष्णया कृष्णा कृष्णाम् अत्र कथं करणीयं भगिनी तत्र कृष्णबलरां सुभद्रा एतेषाम् बहुवचनान्तरूपं षष्ठि विभक्ति आम् आम् तस्य तयोः तेषां वा एतेषां तेषां मन्दिरमस्ति सम्यक् उत्तमं तथैव सम्यक् अत्र गान्धार्याः पतिः धृतराष्ट्रः धृतराष्ट्रस्य बन्धुः कः धृतराष्ट्रस्य बन्धुः पाण्डुः विदुरः च उत्तमम् अस्ति उत्तमम् तथैव अग्रिमे अपि तत् अस्ति वाक्यानि सन्ति तत् पृच्छतु अर्जुनस्य गुरुः द्रोणः देशस्य नाम भारतम् अर्जुनस्य आयुधं गाण्डीवम् दुशालायाः पतिः जयद्रथः कौरवसेनायाः नायकः भीष्मः नद्याः नाम गंगा कादम्बर्याः रचयिता भानभट्टः पुस्तकस्य नाम गीतासोपानं hmm. रामायणस्य कर्ता वाल्मीकिः hmm. नगरस्य नाम इन्द्रप्रस्थं धन्यवादः धन्यवादः अधुना वीणा भगिनी हा भगिनी <laughs> अत्र किञ्चित् तस्य सन्दर्भेण दशवाक्यानि तु तत्र सन्ति तेषां सन्दर्भेण स्वरचितानि वाक्यानि वदति वा तस्य विभक्तिप्रयुज्य प्रयत्नं करोमि सर्वे पाण्डवा पाण्डवायाः गुरुः द्रोणः कौरवाणामपि बहुवचन् अनन्तरं वयं तत्र तालिका अस्ति भगिनी तालिका अस्ति तदपि वयं पश्यामः परन्तु इदानीमेव मनसि आगच्छति चेत् सम्यक् अतः अहं तत् प्रयत्नं करोमि हा पाण्डवानां गुरुः द्रोणः सत्यम् इतोपि मम देशस्य नाम स्विट्झर्लेण्ड् ओ एवं वा उत्तमं तत्र इदानीं कः समयः द्विवादने द्विवादन सार्ध एकवादनम् इति अहं सार्ध एकिन सार्ध एकवादन सार्ध एकवादने <coughs> इतोपि वदति mm. वा no. पाण्डवसेनायाः नायकः कृष्णः वा न पाण्डवसेनायाः नायकः सेनापतिरूपेण ना? कः कार्यं कृतवान् सेनापतिकः पाण्डवसेनायाः कोऽपि जानाति वा बेनि द्रौपद्याः भ्रातुः दृष्टद्युम्नष्टद्युम् दृष्टद्युम्नः दृष्टद्युम्नः कौरवसेवा दृष्टद्युम्नः तत्र शब्दे शब्दस्य उत्पत्तेः विषये अपि अनन्तरं वदामि कथं तत् दृष्टद्युम्नः तत्र अहं बहुवारं चिन्तनं कृत्वा कृत्वा तत्र निष्कर्षरूपेण अनन्तरं वदामि अहं कथं तत् दृष्टद्युम्नः शब्दस्य उत्पत्ति कथं भवति अस्तु भगिनि अनन्तरं सत्यम् अग्रिमे नद्याः नाम कावेरी कावेरी अग्रिमे महाभारतस्य कर्ता व्यासः इति महाभारतस्य कर्ता तु अस्ति व्यासः यतः अस्ति कादम्बर्याः रचयिता बाणभट्टः तमाधारीकृत्य स्मरति वा अभिज्ञानशाकुन्तल एतस्य रचयिता रचयिता महाकविकालिदासःविकालिदासः कालिदासः एवं तत् मेघदूतमस्ति अभिज्ञानशाकुन्तलमस्ति तदपि कदा कदा पश्यामः अतीव सुंदर, अतीव सुन्दरम् एकसन्देशः अपि अस्तु अस्तु तत् सम्यक् उत्तमं धन्यवादः धन्यवादः भगिनि अगस्टमहोदय भवान् आदौ स्वरचितानि वाक्यानि वदन्ति वा अनन्तरम् अग्रिमे अपि पठतु परन्तु वाक्यद्वयं वदति वा वाक्यानि क्यानि षष्टि विभागी करोमि यत्नं करोतु सन्दर्भेण वदतु कः कस्य भ्राता कः कस्य पिता hmm? एवं वदतु नद्याः नाम गवेरी hmm? अस्तु इतोपि hmm. पर्वतस्य नाम पर्वतस्य नाम वदतु hmm? हिम, हिमा, हिमालयः उत्तमं हिमालयः नगरस्य नाम नगर इत्युक्ते नगर इत्युक्ते टौन् प्लेस् इति टौन् नगर जनपत् इति नगरस्य नाम भवान् कुत्र निवसति तस्य नगरस्य भवान् कुत्र निवसति तस्य नगरस्य नाम वदतु सत्यम् इति मम नगरं मम नगरस्य नाम एवं वदति अस्तु ah. okay. okay. पुस्तकस्य नाम वदतु भवान् किं पठति पुस्तकस्य नाम तस्य नाम गीतासोपनं गोतासोपानं तत्तु अस्ति परन्तु इतोपि भवान् तु वेदस्यापि अध्ययनं करोति खलु तत् वदतु ग्रन्थस्य नाम इति वदतु किं पठति भवान् ग्रन्थस्य नाम आ... भगवद्गीता ग्रन्थस्य नाम भगवद्गीता अस्तु अस्तु हा धन्यवाद अग्रिमे पठतु अत्र अवधेयमपि पठतु महोदय अवधेयं पठतु अवधेयं कृष्णः कृष्णस्य गीतायाः गीतया इति गीतया भवेत् चेत् तृतीया भवति खलु गीता गीतायाः गीता गीता गीता गीता, गीता माला मालायाः तथैव अहं मा विषये उक्तवती मा इति लक्ष्मी मायाः तथैव आगच्छति आकारान्त श्रीलिङ्ग अग्रिमे वाणी चक्रं चक्रस्य वृक्षः वृक्षस्य एकवचनं द्विवचनं वृक्षयोः बहुवचनं वृक्षाणां सेना एकवचनं सेना सेनायाः सेनया इति न सेनायाः सेनया भवति चेत् तृतीया गच्छति तत् षष्टिवचनं षष्ठी एकवचनं सेनायाः आकार सम्यक् रीत्या तस्यपि तस्यपि उच्चारणं भवेत् सेनायाः वदतु पुनः एकवारं सेना सेनयोः बहुवचनं सेनानां नारी एकवचनं नार्याः द्विवचनं नार्योः बहुवचनं नारीणां ज्ञानम् एकवचनं इत्युक्ते तत्र अकारान्तपुल्लिङ्गिशब्दः अस्ति चेत् यथा कृष्णः वृक्षः तत्र चस्य विभक्तिरूपाणि कानि वृक्षस्य वृक्षयोः वृक्षाणाम् कृष्णस्य कृष्णयोः कृष्णाम् एवम् गीता सेना सेनायाः सेनयोः सेनानां वाणी नारी एव नार्याः नार्योः नारीणां नारी चक्रं ज्ञानं वाणी इति ईकारान्तश्रीलिङ्गी गीता इति आकारान्तश्रीलिङ्गी चक्रम् इति न पुस्तकलिङ्गि चक्रं ज्ञानं ज्ञानस्य ज्ञानयोः ज्ञानानाम् इति भवति धन्यवादः अग्रिमे गच्छामः इदानीम् एतत् इदा सर्वमस्ति यत् वयं कृतवन्तः एकवारं जयन्तीभगिनी भवती पठति वा आम् बेनि अभ्यासः कोष्टके विद्यमानान् विद्यमानानां शब्दानां महासारि साहाय्येन साहाय्येन साहाय्येन वाक्यानि लिखत कृष्णः शङ्खः पाञ्जन्यः युधिष्ठिरः शङ्खः अनन्तविजयः नारदः वीणा महति विष्णुः गदा कौमोदकी शम्भुः धनुः पिनाकः सरस्वती वाहनम् हंसः कृष्णस्य <laughs> शङ्कः पाञ्चजन्यः hmm. युधिष्ठिरस्य शङ्कः अनन्त युधिष्ठिरस्य शङ्कः अनन्तविजयः नारदस्य वीणा मह महति विष् विष्णोः कौमोदकी विष्णोः विष्णुः उकारापुंगी सूप विष्णो उत्तम अग्रिम शंभो धनुनाव सरस्वत नदी चलती ईकारातिंगी अूतन विंदुक उपुंगी ईकारातलिंग तथे अस्त उच्चैः पठत पठतु एकवारम् मुनेः मुने नाम उच्चैः पठत मुनेः नाम व्यासः कवीनाम् कृतयः काव्यानि सेनयोः उभयोः मध्ये रतम स्थापय पितुः आज्ञा पालनीया साधूनाम् परिध्राणम् परिद्राणाम् करणीयम् पाण्डवानाम् ज्येष्ठः युधिष्ठिरः अभिमन्योः पिता अर्जुनः गीता गीताध्याय गीताध्यायानाम् गीता प्रथमः अर्जुनविषादयोगः भ्रात्रोः प्रिया प्रिया भगिनी सुभद्रा वारिणः संरक्षणम् कर्तव्यम् अत्र पश्यन्तु पुनः एकवारम् वाक्यम् प्रति गच्छामः अत्र एकमेकम् नाम व्यासः अत्र मूलः शब्दः कः मुनि मुनि इत्युक्ते तत्र इकारान्तर्रस्व इकारान्तपुल्लिङ्गी हरिः मुनिः रविः तस्य षष्ठन्तपदं किं भवति मुनेः रवि एतस्य किं भवति भगिनी रवे रवये रवेः रविः रवे तत् रवये नमः कथं भवति चतुर्दन्तपदं रवये नमः इति वयं वदामः न तत् चतुर्दन्त रवेः क्षत्रादे रवेः मुनेः हरि हरि अस्ति चेत् किं भवति भगिनि भगिनि हरि इति शब्दस्य षष्ठन्तरूपं हरे हरे हरे हरे हे अग्रिम पांडवा ज्येष युधिषि पांडवाना वचन वचन से षि बहुवचन पांडवा कौरवाण वृक्षाण जी बहुवच कव्या कवीना कृतयः काव्यानि बहुवचनं कविकवि अत्र मम प्रश्नः यदा तत्र एकवचनान्तपदानि योजित्वा वयं वाक्यरचनां कुर्मः तत् कथं भवति कवीनाम् इति न एकः एव तत्र कविः अस्ति चेत् कथं भवति कवेः कवेः कवेः अग्रिमे सर्वेषु स्थलेषु कवेः कवेः कवे कृति काव्यं काव्याव्यम् अस्तु अभिमन्योः पिता अर्जुनः अत्रापि अभिमन्यु इति भानु एव यथा भवता उकारान्त अभिमन्युः पिता अर्जुनः अधुना पञ्चमं तत्र पश्यन्तु सेनयोः उभयोः अत्र विभक्ति वचन् वचनस्ति वचनस्ति द्विवचन षष्टि द्विवचन सेनयोः उभयोः मध्ये रथं स्थापन इति कौरवशेन पाण्डवशयन द्वयमपि अस्ति अतः सेनयोः उभयोः इति द्वयं सूचयति अतः उभयोः सत्यं सत्यं सत्यं सेनयो उभयोः स्तेनयोः मध्ये रथं स्थापय मेच्युत मम रथं स्थापय हे अच्युत इति धनञ्जय अर्जुन वदति हा गीताध्यायानां प्रथमः अर्जुनविषादयोगः गीता इति मिलित्वा गीताध्यायानाम् इति लिखितमस्ति गीता, hmm. गीता गीता गीता अध्यायानां प्रथमः hmm. अर्जुननिषादेव hmm. तत्र षष्ठीयन्तरूपं तत्र दृश्यते न सप्तम्यन्तरूपं hmm. hmm. पितुः आज्ञा पालनीया अत्र मूलशब्दः कः पिता प्रातिपदिक रुकारामितृ पितृ पितुः hmm. अन्य मातुः अन्य एव okay. अग्रिमे hmm. भा भ्रात्रोः प्रिया भगिनी सुबुदा अत्र uh, भ्रातृ मूलशब्दः भ्राता प्रथमपुरुष एकवचनं सत्यं तस्य षष्ठ्यन्तरूपं भ्रात्रोः अत्र भेदः कः अत्र पितुः भवति परन्तु अत्र भ्रात्रोः अत्र भ्रातोः किम्बन्धविषये सम्बन्ध सम्बन्धविषये भवति बेनि एतत् ऐ मीन् द्वयमपि सम्बन्ध सम्बन्धितविषये पितृभ्रातृ इति परन्तु भ्रात्रोः वचनविषये वदतु भ्रात्रोः षष्टि ऐ मीन् द्वयम् ऐ मीन् भ्रात्रोः षष्टि द्विवचनं तत्र पशुरूपेण श्रीकृष्णः अपि अस्ति बलरामोपि अस्ति अतः द्वयं भोः षष्टि द्विवचनं अनन्तरं साधूनां परित्राणं करणीयं साधु इति साधु इति उकारान्तपदम् तस्य ऐ मीन् प्रथमविभक्तिः एकं साधोः साधु साधूनां षष्ठी hmm. बहुवचन साधूनाम् hmm. इति वारिणः संरक्षणं कर्तव्यं वारिणः कथमागच्छति वारि वारि वारिणी hmm. वारी वारिणः वारि ऐ मीन् वारिणः इति बहुवचनरूपं नपुंसकलिङ्ग षष्टि बहुवचनरूपं वारिणः तत्र एकवचनम् एव वारिणः जलम् इति जलस्य संरक्षणं कर्तुम् वारिणः संरक्षणं कर् इति कर्तव्य वारीण षष्टि बहुवचनरूपं वारीणाम् इति आगच्छतु खलु वेनि आगच्छतु आम् आम् अस्तु अग्रिमे तत् किञ्चित् भिन्न षष्टिविभक्तिः एव अस्ति किञ्चित् अस्ति तत्र सर्वेषु स्थलेषु तत्र बहवः मध्ये एकं परन्तु तत्र वैशिष्ट्यपूर्णषष्ठिः तत् अग्रिमे वर्गे कुर्मः तस्य विषयकः एकं श्लोकं स्वीकृत्य एव वयं कुर्मः इदानीं वयं कथायाः वाचनं कुर्मः तथा धन्यवादः अस्ति तत्र षष्ठिविभक्तिविषये तत् मूलतः कथमस्ति तन् विषये प्रश्नाः सन्ति वा स्पष्टमस्ति वा स्पष्टमस्ति अस्तु इदानीं भारतमहोदय अस्तु जयन्ती भगिनी भवत्याः सखी तत्र दृश्यते कन्ना लक्ष्मीभगिनी लक्ष्मीबेणी लक्ष्मी एव अस्ति अद्य अध्य दिने हाँ. अस्तु, अस्तु, अस्तु लक्ष्मीभगिनी श्यामला भगिनी अस्ति अम्बिकापतिमहोदय भारतमहोदयः विलम्बेन आगतवती भगिनी सम्यक् अस्ति चिन्ता रमा इति नाम्ना एका सखी अस्ति खलु बेनी मम स्नेहिति सा किञ्चित् विरामह स्वीकृतवती सा उक्तवती अहं रेकार्ड् शृणोमि इति एवं वा आम् hmm. ah. आगच्छति अनन्तरम् अनन्तरम् आगच्छिन्ता ah. mm -hmm. मास्तु इदानीम् hmm. अम्बिकापतिमहोदय भवान् पठतु अत्र अस्माकम् अद्यदिनस्य कथा अम्बिकापतिमहोदय पठति वा आं भगिनि कः कः उपायः श्रेष्ठः अत्र एकस्मिन् दिने अरण्यमार्गे शृगालः मार्जलः च मिलितवन्तौ तव तु सहृदोः अतः तौ कुशलसम्भाषणे मग्नौ जातौ तदवस तदवसरे तदवसरे शृगालः उक्तवत् अवदत् एतस्मिन् प्रपञ्चे अहं यावतः उपायान् जानामि तावत् तु कोऽपि न जानाति mm -hmm. तत् श्रुत्वा mm -hmm. मार्जलः उक्तवान् एतत् अहं तु एकदेव उपायं जानामि कृपया hmm. माम अपि तान् उपायं पाठयतु hmm. इति किमस्ति अत्र किञ्चित् विवरणं करोति वा एक आ, एक आ, आ, वने शुगालः शुगालः मार्जलः स्नेह स्नेह स्नेहत्वे सन्ति एकदिने सम्भाषणं कुर्वन्ति तत् तत् प्रश्नः इति अहम् उपायम् उपायमे एक अवदत् शुभालः किं वदामि शृगालः इत्युक्ते किं भगिनी वदतु शृगालः इत्युक्ते एव जातु मार्जालः इत्युक्ते कः पश्यन्तु अत्र अत्र दृश्यते शृगालः शृगालः मार्जालः केट् हा पश्यन्तु तत्र शृगालः वदति अहं बहु किमपि जानामि अहं hmm. यावतः उपायान् hmm. जानामि तावत्तु कोऽपि न जानाति यावत् तावत् जायिनिङ्ग् प्रपञ्च इत्युक्ते व्यावहारिकदृष्ट्या व्यावहारिकदृष्ट्या एतस्मिन् संसारे एतस्मिन् जीवने प्रपञ्चे अहं बहु किमपि जानामि यावत् अहं जानामि अन्य कोऽपि न जानामि अहमेव सर्वज्ञ इति भावः यावतः उपायान् अहं जानामि तावत्तु कोऽपि न जानाति इति सः परन्तु मार्जालः किं वदति एवम् अहं तु एकमेव उपायं जाना हा वदतु अम्बिकापति महोदय मार्ज किं वदतु मार्जाः अवदत् अहमेव उपायं जानामि एकमेव जानामि एकम् एकम् कृपया मामपि तान् उपायं पाठयतु हा अहं बहु किमपि न जानामि एकमेव जानामि भवान् तु यावत् भवान् जानाति तत् ता, अन्य कोऽपि न जानाति परन्तु अहं बहु किमपि न जानामि एकमेव जानामि कृपया एक मामपि जाना। अन्यान् उपायान् पाठयतु भवान् तु बहु किमपि जानाति मार्जाल वदति अस्तु पर्याप्तं भारतमहोदय भवान् अग्रिमे पठति वा तदा शुगालः अवदत् ततः तत् श्रुत्वा मार्जालः उक्तवान् Mm -hmm. एवम अहं तु एकमेव उपायं जानामि कृपया माम अपितान तान् उपायान् पाठयतु इति mm -hmm. mm -hmm. तदा शृगालः अवदत् अवश्यम् mm -hmm. अत्र किं कष्टं mm -hmm. तावता एव hmm. अनतिदूरात् शुनकानां भसनं कृतम् इदानीं hmm. किं करणीयम् शृगालः अपृच्छत् hmm. तदा मार्जालः अहं hmm. तु वृक्षारोहणरूपम् एकम् एव उपायं जानामि mm. अतः अहं वृक्षम् आरुह्य उपविशामि परं तव किमपि कष्टं न स्यात् mm. त्वं तु बहून् उपायान् जानासि एव तेषु कमपि उपायं आश्रय इति उक्त्वा झटिति वृक्षम् आरुह्य पणानां मध्ये आत्मानं गोपितवान् किमभवत् अत्र हा पर्याप्तं किम् अभवत् हा तत्र, तत्र शृगालस्य मार्जालस्य सम्भाषणं सम्भाषणं प्रचलितम् अस्ति आसीत् तदा मार्जालः तु वदति अहं बहु किमपि न जानामि एकमेव उपायं जानामित्रुर्वालः जाना वदति अहं बहु किमपि जानामि यावत् अहं जानामि तावत् अन्य कोऽपि न जानाति इति तथा किम् अभवत् तस्मिन् समये किम् अभवत् अत्र किं कष्टम् अत्र अनन्तरं मार्जाल पृच्छति मामपि पाठयतु भवान् तु बहु किमपि जानाति मामपि केचन अंशान् पाठ पाठयतु इति भवति तस्मिन् एव समये किम् अभवत् तावता ए एव अनतिदुरात् शुनकानां पषणं श्रुतं शुनक इत्युक्ते स्याड् स्वान तत्र किम् अभवत् तत्र शुनकानां भषणं तत्र शुनकानां भषणं तेन श्रुतम् इदानीं किं करणीयम् इति शृगालः अपृच्छत् शुनकानां भाषणम् इत्युक्ते तत्र कः बोधः तत्र शत्रोः आगमनं सूचयति शुनकानां भाषणं यदा तत्र श्रूयते इत्युक्ते तत्र कुत्रचित् शत्रोः आगमनं भवति शत्रुरूपेण कः अपि तत्र व्याघ्रः वा सिंहः वा अन्य कोऽपि भवेत् परन्तु तत्र शुनकानां भाषणम् शत्रु श्रो आगमनम तूचयती इदानम किं करीय शृगा अभी भीत मजार अभी भीत कि कथम अस्क वो ते, शत्रु शत्रू वारयुम किं कीय कथम अस्कमं रक्षण करीय चिंतन किं करीय शृगा अृछत तदा मजार किवदत् महोदय अहं तु वृक्षारोहणरूपम् एकम् एव उपायं जानामि सो so, अहं तु वृक्षारोहणरूपं रुक्ष, वृक्ष वृक्ष आरोहण आरोहणरूपम् आरोहणम् okay. आरोहणम् तु आरोहणम् आरुह्य कविता शाखा वन्दे वाल्मीकिकोकिलम् इति अस्ति खलु आरोहणम् एकम् एव उपायम् अहं जानामि किं करणीयं कथं स्वरक्षणं करणीयं स्वस्य रक्षणं कथं करणीयं वृक्षस्य उपरि आरोहणं करणीयं तदेव अहं जानामि यदा शत्रुः आगमनं शत्रोः आगमनं तत्र दृश्यते अहम् स्वस्य रक्षणं कथं करोमि एकमेव उपायं जाना एकम जानामि तेन करोमि अहम् एकमेव उपायं जानामि तत् वृक्ष उपरि वृक्षस्य उपरि आरोहणं करणीयं वृक्षस्य षष्टि वृक्षस्य उपरि आरोहणं वृक्षारोहणरूपम् एव जानामि अग्रिमे अहं किं वदति सः वृक्षम् आरुह्य उपविशामि आरुह्य इत्युक्ते प्रत्ययस्य विषये वदति वा महोदय आरुय कः प्रत्यय तत्र गत्वा तत्र ल्य प्रत्ययः आगच्छति आरुह्य लन्त उपसर्गसहितरुह इति धातुः अस्ति आ इति उपसर्ग अतः तत्र आरुह्य इति रूपं निष्पद्यते लक् प्रत्ययान्त आरुय उपविशामि आरोहणम् कृत्वा उपविशामि अहं वृक्षम् आरुय, अहं वृक्षस्य उपरि आरोहणम् कृत्वा उपविशामि okay. अग्रिमे किं वदति सः परम् कष्टं न किमर्थम् न स्यात् इत्युक्ते विक्रिङ्ग न भवेत् भवतः कृते किमपि कष्टं न भवेत् किमर्थम् अग्रिमे किमस्ति त्वं त्वं तु बहून् उपायान् जानासि एव भवान् बा, तु सर्वज्ञः बहु किमपि जानासि त्वं ं बहु किमपि जानाति त्वम् इत्युक्ते अत्र मध्यमपुरुष एकवचनं हा त्वं बहु किमपि जानामि बहून् उपायान् जानासि एव बहु किमपि जानासि जानासि बहून् उपायं जानासि यतः भवतः कृते न कष्ट कष्टस्य विषयः एव नास्ति तेषु कमपि उपायम् आश्रयः आश्रय स्वीकरोतु एकम् उपायं स्वीकरोतु बहवः उपायाः तत्र सन्ति एकं स्वीकरोतु इति उक्त्वा uh, उक्त्वा इति प्रत्ययकः अस्ति महोदय उक्त्वा स्पीक् टु स्पीक् सत्यं परन्तु अत्र उक्त्वा गत्वा oh, तत्र यथा भवान् उक्तवान् तत् सत्यं इति धातुः अस्ति तस्य उक्त्वा इति रूपं भवति झटिति इष्टु क्विक्लि वृक्षम् आरुह्य पर्णानां मध्ये पर्णानाम् अत्र विभक्ति का महोदय पर्णानाम् अत्र षष्टि रामस्य प्रथमा रामाणां तथैव पर्णानां पर्णस्य पर्णानां मध्ये षष्ठीवचनं पर्णानां मध्ये आत्मानम् आत्मानमित्युक्ते स्वं सेम् आत्मानं गोपितवान् गोपितवान् इत्युक्ते तत्र सः गोपित अत्र हैडिङ्ग् इति वदामः तत्र गोप गुप गुपधातोः गोपितवान् इति रूपं भवति गोपितवान् yeah. अस्तु yeah. अस्तु धन्यवादः धन्यवादः अग्रिमे श्यामला भगिनी भवती पठति वा मार्जालस्य तथा आरभ्य अहं पठामि पठतु तस्मिन् समये मार्जालस्य पुरतः अपमाननं न भवेत् मम इति चिन्तयन् चिन्ता चिन्तामग्नः अभवत् तस्मिन् समये एव शुनकाः शृगालस्य समीपम् आगतवन्तः तथा शृगालः अधुना एकह एव उपायह अवशिष्टः अस्ति hmm. ततो पलायनं नाम इति विचिन्त्य ततः धावनम् hmm. आरब् आरब्धवान् hmm. पतन् सकलं सह सः महता कष्टेन धावितवान् hmm. एतेन शृगालस्य शरीरे क्षताः अभवन् वः अपि जातः अधुना किम् अभवत् भगिनि माजलस्य माजलस्य पुरतः शृगालः अपमानम् न भवेदिति चिन् चिन्ता इति चिन्तामग्नः चिन्तितः किमर्थं तत्र सः उक्तवान् खलु अहं बहु किमपि जानामि मम समीपे बहवः उपायाः सन्ति इति इदानीं मार्जालस्य समीपे एकमेव उपायः तत् किं समीप समीपम् आगतवन्तः वृक्ष आरू्य सह पणना मध्य स्व गोपित परुनक वदती मीपे शुनक वदति, क्षमता शुगाल वी मम समी बहव उपयानी कि चिंतामग्न किीय सहुकम अस्त ज्ञान तो अस् परु तगम कथम करनीय सह न जा अतः शृगाल मार्जालस्य पुरतः अपमानं भवेत् तावत् तस्मिन्नेव समये शुनकाः तत्र समीपम् आगतवन्तः एषः तु उपायान् विषये एव चिन्तयति किं करणीयम् शुनकाः तु तत्र समीपम् आगतवन्तः तदा शृगालः किम् उक्तवान् भगिनि तथा शृहारः अधुना एकः एव उपायः अवशिष्टः अस्ति इति वदति एकः उपायः एक उपाय अवशिष्टः अस्ति इति शृहारः वदति तत्तु पालयनं ना, नाम इति विचिन्त्यः त ततः धावनम् आरब्धवान् पलायनं करणीयं स्वरक्षणार्थं स्वस्य जीवितरक्षणार्थम् एकः एव उपायः पलायनम् पलायनं विचिन्त्यः ततः धावनमा किं भवत् धावनक्रिया हा तेन किं भवत् पतन पतन् स्खलञ्च सः महता कष्टेन धावितवान् धावने किमभवत् पतनं भवत् अभवत् मध्ये मध्ये स्खलन् भवत् अभवत् महता कष्टेन सः धावितवान् तेन किम् एतेन शृगारस्य शरीरे क्षतः अभवन् सृगारस्य शरीरं बिकम्स् वेरि टयर्ड् हा अनेन क्षरीरे क्षतः इत्युक्ते तत्र बुण्ड् वक्तुं शक्नुमः क्षतः तेन रक्तस्रावः अपि भवति एकस्रावः अपि जातः पर्याप्तम् उत्तमं अधुना लक्ष्मीभगिनी भवती पठति वा जयन्ती भगिनी भगिनी स्खलनी इत्युक्ते किं भगिनी पृच्छामि भगिनी ओके भगिनि अस्तु भगिनी अस्तु धन्यवादः भगिनी अस्तु अस्तु सा लक्ष्मी भगिनी लक्ष्मी भगिनी न अस्ति भगिनि अस्ति लेफ्ट् भवति ऐ मीन् अस्तु अस्तु अस्तु अधुना आगस्ट् महोदय अन्तिमं परिच्छेदं तत् तद्दिने तत्र आरभ्य पठति वा तद्दिने शुगालेन अन्तिमं वाक्यं तद्दिने तद्दिने शृगालेन अवगतम् hmm. आर्थाहीनेभ्यः hmm. शतात् hmm. उपायेभ्यः अपि hmm. प्राणारक्षाणु अकारकः hmm. एकः एव उपायः वरम् इति ah. इत्युक्ते कः अर्थः वदति वा बै बै डे जकौ अपगतं वा स्नौ अपगतम् अर्थहीनेभ्यः अर्थहीनेभ्यः अर्थहीन यस्मिन् अर्थः एव नास्ति इति यूस्लेस् इति वदामः चेत् तथैव तत्र अर्थः एव नास्ति अर्थहीनता दृश्यते अर्थने अर्थ शता अर्थनेभ्य तचमी अस् शता पंचमी हाँ शत उपया सी परंतु तुम अर्थ है अर्थबोधनता दृश्य है शत उपया परु तथनता अतः स कि वज अर्थहीनेभ्यः शतात् उपायेभ्यः सर्वत्र तत्र पञ्चमी दृश्यते तस्मात् इति वरम् इति भावः अर्थहीनेभ्यः शतात् उपायेभ्यः अग्रिमे किमस्ति अगस्ट् महोदय अपि एकः एव उपायः वरम् इति प्राणरक्षणरक्षण okay. उपकारकः उत्तमं प्राणरक्षण उपकारकः एकः एव उपायः वरम् बेटर् अर्थहीनेभ्यः शतात् उपायेभ्यः वट् इस् बेटर। यु नो सो मेनि थिङ्ग्स् हण्ड्रेड् थिङ्ग्स् वट् इस् बेटर् एकः एव उपायः यस्य प्राणरक्षणस्य कृते उपयोगः भवति यस्य उपयोगः भवति प्राणरक्षणस्य कार्यार्थं प्राणरक्षण उपयोगः भवति तस्य प्राणरक्षण करणीयमस्ति तदा तस्य एव उपायस्य उपयोगं भवति तत् अपि तत् एव वरं देट् इस् ओन्ली ड् देट् इस् ओन्ली बेटर् इति सः वदति अवगतं स्पष्टमस्ति अत्र किं भवति संक्षेपेण एकवारं तत्र मार्जालः एक एकम एवं एक जानते एक उपाय तनसी अस्तगा उपया मन से अस्ति पर सकटे प्राप्ते विपदी आपदी सकटे प्राप्ते कि अब क्य उपाय योजना कौमी तदव विस्मृत न जामी केन उपायेन न परन्तु शुनका संरक्षण कौ जरु मजारेल तकमें जानती वृक्षारोहण परन्तु शृगा का गति कितवा अधुना एक उपाय था पलायन करतवा तेन रक्त क्षता अ अभवं सर्व एकम एव एक मार्जालह चिंतितवान तेन एव सह प्राणस्य रक्षणं कुतवान। सर्वे प्राणस रक्षण होशन वयम तीक्तिपठन सेथम अध्याय प्रथम अध्याय तदर्भेण वह पठितव प्रथम अध्या यथा उक्तवती धृतराष्ट्रः पृच्छति अञ्ज अनन्तरं सञ्जयः तत्र निवेदनं करोति तदा दुर्योधनम किं वदति तत्र पश्यतु तत्र अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदा दुर्योधनः किञ्चित् अहङ्कारभावनया वदति बहवः शूराः सन्ति मदर्थे त्यक्तजीविता दे आर् रेडि टु सेक्रिफैस् दियर् लैफ् बिकास् मी तत् अपर्याप्तं तत् अस्माकं बलम् अस्माकं बलम् अपर्याप्तमस्ति भीष्मः भवान् भीष्मस्य कर्णस्य कृपश्च समतिञ्जय अश्वत्थामाविकर्णस्य सोमदत्ति तथा सर्वेषां तत वीराणां तत्र सः उल्लेखं कृतवान् एते सर्वे अस्ति इदानीं वयं सर्वे जानीमः कौरवस्य सेनाभारम् अधिकमस्ति हा पाण्डवस्य अपेक्षया कौरवस्य सेनाभारम् अधिकमस्ति परन्तु एकम् एवम् एका एव शक्तिः पाण्डवानाम् समीपे अस्ति एका एव शक्ति का शक्ति कोऽपि वदति वा कृष्णः कृष्णस्य दिव्यशक्तिः आम् योग्यं योग्यम् कृष्णस्य दिव्यशक्तिः परमशक्तिः सामर्थ्यपूर्णशक्तिः पाण्डवानां समीपे आसीत् तेन किमभवत् वयं सर्वे जानीमः प्राणरक्षण उपकारकः एकः एव एका एव शक्ति तेषां समीपे अन्ततो गत्वा पाण्डवानां विजयप्राप्तिः पाण्डवानां कृते विजयप्राप्तिः अभवत् एवमस्ति न बहु कि जेन किते अ परंतु ये तत्क प्रकार सखोलतया अयनम भवे वखोलतया चिंतन भवोल्ञानम भवेट रूपक तत्र शृगालः इति रूपकः मार्जालः अपि रूपकः रूपकः इत्युक्ते तत्र शृगालस्य मार्जालस्य उदाहरणेन बोधः अन्यकोपि बोधः भवेत् तत्र किं बोधः कः बोधः भवति किम् अवगमनं भवति एकः एव उपायः भवेत् वा अल्पज्ञानम् अपि भवेत् परन्तु सम्यक्रीत्या भवेत् सखोलतया भवेत् सम्यक् दृष्ट्या तस्य अवगमनं भवेत् इति बोधः कथायाः इदानीं भवन्तः सर्वे एकमेकं एकम वदन्तु अवगम अवगमनं किं बोधकः इति वदतु एकमेकं एकम। जयन्ती भगिनी वदतु सर्वे वदन्ति एकमेकं वदतु बोधः क राधाभगिनी श्यामलाभगिनी वीणा भगिनी अम्बिकापतिमहोदय भारतमहोदय हा वदतु लोके पुरुषार्थं प्राप्न प्राप्नु प्राप्णार्थं बहवः मार्गाः सन्ति एव किन्तु समयस्य अनुसरेण यदि uh, समयः नास्ति uh, तत् कार्यं कर करणार्थं समयः नास्ति चेत् उत्तममार्गाः एव स्वीकरणीयम् इति मनसि आगच्छति भि एतत् सत्यं सन्ध्यं समयानुसारेण तस्य पालनं भवेत् फलं स्थलस्य चिन्तनं समयस्य चिन्तनं कृत्वा एव तस्य पालनं भवेत् उपायश्च धन्यवातिमहोदय भवान् वदति वा कथायाः बोधः राधाभगिनी आङ्ग्लभाषायाम् एक सेयिङ्ग् अस्ति एम् टि वेसल्स् मेक् द मोस्ट् सौण्ड् तस्य कृते शृगालः बहवः उपायः जानाति इति चिन्तितवान् किन्तु समये तस्य रक्षणस्य समये किमपि न जानाति न तस्य अहं व्यर्थ अन्यवार्तानि मम रक्षणं न करोति ज्ञानं ये उपाय अस्ति ते अहम् एक उपाय अपि बृहद् बृहद् ज्ञानेन किमपि न भवति परन्तु प्राण प्राणसंरक्षणार्थम् एकमपि सूत्रं पर्याप्तं भवति गृहज्ञानेन किमपि न सिध्यते. हा? परन्तु तत्र एकः उपायः सः योजितवान् मार्जालः तेन तस्य प्राणरक्षणम् अभवत् परन्तु अत्र अत्र शृगालस्य समीपे किमपि अन्य अन्य अन्य प्लान् नास्ति भगिनि योजना पलायनम् एव एक पलायनम् ए एव एकमेव उपायं सत्यम् अस्तु भारत होदय धन्यवादः भारतमहोदय वदति वा भारतमहोदय सङ्कटसमये स्वरक्षणं करो करोतु उत्तमं पश्यन्तु सङ्कटसमये स्वरक्षणं प्रथमं कर्तव्यं प्रथमं कर्त मम रक्षणं कथं भवेत् तत् समयदृष्ट्या कालदृष्ट्या स्थानं दृष्ट्वा तत् करणीयं सङ्कटसमये जीवितरक्षणं प्राणरक्षणं प्रथमं कर्तव्यम् उत्तमं सम्यक् अम्बिकापतिमहोदय अगोष्ठमहोदय वदति वा अगोष्ठमहोदय um uh, bagine kshemetan i do prefer to study the the kata read more we got uh, some words that i don't know evamma angla bhashayam madiva i don't know if i understood uh, totally the the meaning uh, one one plan is is enough to to protect the, the life but uh, but uh um, some paragraph i i did not understand the the the, the meaning asti bhavan ek varam puna ek varam pathatu sandeha santi che pruchatu krupaya tatra puna ek varam pathatu anantaram sandeha pruchatu धन्यवाद धन्यवाद श्यामला भगिनी वक्तुम् इच्छति वा न न श्रोतं मया किं वदति भगिनि समये किमपि आवश्यकं चेत् मया अपि वि हेव् टु हेल्प् किं वक्तुम् इच्छति भवती आपत्काले मनुष्याः आपत्काले मनुष्याः मनुष्याः वयम् अपि हेल्प् वि हाव् टु हेल्प् देम् अर्जेण्ट् टैम्स् मया न अवगतं सम्यक् रीत्या कोपि साहायं करोति वा तावत् समये एकम् उपायं कर्तुं कर्तुं मनसि चेत् सम्यक् बर, भविष्यति हा सम्यक् आपतकाले अस्माभिः सम्यक् चिन्तनं करणीयम् इति स्थिरबुद्ध्या सम्यक् चिन्तनं करणीयं बुद्धि स्थिर दृढ दृढबुद्ध्या वा स्थिरबुद्ध्या चिन्तनं भवेत् इति सम्यक् योग्यं योग्यम् अस्तु धन्यवादः अस्तु इदानीं वयं समापयामः अम्बिकापतिमहोदय शान्तिमन्त्रं वदति वा सर्वे भवन् सुखिनः सर्वे सर्वे वृद्राणि पश्यन्तु कस्य दुःखभाग भवेत् शान्ति शान्ति शान्तिः हरिः ओं तत्सद् श्रीगुरुभ्यो नमः हरिः ओं धन्यवाद धन्यवाद भगिनी धन्यवादः धन्यवादः